सप्तदशोऽध्यायः वासुदेव उवाच जातस्य भरते वंशे तथाकुन्त्याः सुतस्य च यावै युक्तामतिस्य यमर्जुनेन या ना प्रदर्सिता प्रदर्शिता न स्म मृत्युम् वयम् विद्म रात्रौ वा यदि वादि न चापि कञ्चिदमरमयुद्धे नानुशुश्रुम एतावदेव पुरुषैः कार्यम् हृदयतोषणम् नयेन विधिदृष्टेन इदुपक्रमते परान् सुनयस्यानपायस्य संयोगे परमः क्रमः सङ्गत्या जायते साम्यम् साम्यम् च न भवेद्वयोः अनयस्यानुपायस्य संयुगे परमः क्षयः संशयो जायते साम्याज्जयश्च न भवेद्वयोः देवयम् नयमास्थाय शत्रुदेहसमीपगाः कथमन्तम् न गच्छेम वृक्षस्येव नदीरयाः पर रध्रे पराक्राता स्वरंध्रभरणे स्थिता व्यूानीकतिलेन युद्येदिहुमतापीह रोचते